परार्थजापकब्रह्मवन्धुसद्बन्धवे नमः ॐ परमेश्वराघमहाराय नमः ॐ परब्रह्मणे नमः ॐ परमूर्तये नमः ॐ परात्पराय नमः ॐ परामोदाय नमः ॐ परमधार्मिकाय नमः ॐ परमाय नमः ॐ परमार्ताय नमः ॐ परविद्याविकर्षणाय नमः ॐ परमेशाय नमः ॐ परायणाय नमः ॐ पार्थविधे नमः ॐ पररहस्यवि नमः ॐ परचक्रग्नाय नमः ॐ परपुरञ्जयाय नमः ॐ परमेष्टिने नमः ॐ परार्थकप्रयोजनाय नमः ॐ परिवृथाय नमः ॐ परस्वदिने नमः ॐ परावराय नमः ॐ परमात्मने नमः ॐ परस्मै नमः ॐ परमाय नमः ॐ पराजाय नमः ॐ परासाराय नमः ॐ परावरपराय नमः ॐ परकायकपण्डिताय नमः ॐ परार्थवृत्तये नमः ॐ परमार्थगुरवे नमः ॐ परस्वधायुधाय नमः ॐ परधीकृतकेशराय नमः ॐ पर्याय नमः ॐ परानतये नमः ॐ परमेशानाय नमः ॐ परिवञ्चकाय नमः ॐ परिचराय नमः ॐ पर्णसाध्याय नमः ॐ पर्णाय नमः ॐ परापरेशाय नमः ॐ परधाय नमः ॐ परसूक्ष्मात्मने नमः ॐ परेशाय नमः ॐ परमाणवे नमः ॐ परसुधारिणे नमः ॐ परञ्ज्योतिस्वरूपिणे नमः ॐ परस्वधालसाधिव्यकराब्जाय नमः ॐ परानन्तस्वरूपार्थबोधकाय नमः ॐ परार्थस्य प्रभवे नमः ॐ परार्थप्रभवे नमः परस्य प्रभवे नमः ॐ परमात्मस्वरूपिणे नमः ॐ परमलिङ्गाय नमः ॐ परिहाराय नमः ॐ परश्वतभृते नमः ॐ पर्वतरूपधारिणे नमः ॐ परमशिवाय नमः ॐ परमात्मभूताय नमः ॐ परायणाय नमः ॐ परस्मै नमः पर्वतानां मेरवे नमः ॐ परेशां परमेश्वराय नमः ॐ परिधानाय नमः ॐ परस्वधारिणे नमः ॐ परल्यां वैद्यनाथाय नमः ॐ परात्परलिङ्गाय नमः ॐ परमात्मकलिङ्गाय नमः ॐ परानन्दमयाय नमः ॐ परप्रकाशाय नमः परमशान्तस्वरूपाय नमः ॐ परात्मने नमः ॐ परमदेवताय नमः ॐ परमहेतवे नमः ॐ परस्मैश्वर्यसम्पन्नाय नमः ॐ परमतत्त्वाय नमः ॐ परमकल्याणनितये नमः ॐ परिपूर्णाय नमः ॐ पर्वतराजेन्द्रकन्यकापतये नमः ॐ परशुमृगवरधाभयहस्ताय नमः ॐ परापराज्ञाय नमः ॐ परिपूर्णपरानन्दाय नमः ॐ क्वचित् सत्यविघ्नाय नमः ॐ परानन्दप्रदायकाय नमः ॐ पार्वदातीसजामात्रे नमः ॐ परिपूर्णाय नमः ॐ परिवञ्चते नमः ॐ परमपधाय नमः ॐ परशवे नमः ॐ परितोपि विद्यमानाय नमः ॐ परब्रह्मस्वरूपिणे नमः ॐ पार्वतीरमणाय नमः ॐ पार्वतीशाय नमः ॐ पार्वतीपतये नमः ॐ पारिजाताय नमः ॐ पारिजातसुपुष्पाय नमः ॐ पार्वतमनोहरप्रियाय नमः ॐ पार्वतीहृदयवल्लभाय नमः ॐ पारिजातगुणातीतपादपङ्गजवैभवाय नमः ॐ पार्वती प्राणरूपिणे नमः ॐ पराय नमः ॐ पारिषधप्रियाय नमः ॐ पार्याय नमः ॐ प्रारब्धजन्ममरणमोचकाय नमः ॐ प्रार्थितधायिने नमः ॐ पुरातनाय नमः ॐ पुराणाय नमः ॐ पुरुषाय नमः ॐ पुराणपुरुषाय नमः ॐ पुराणागमसूचकाय नमः ॐ पुराणवेत्रे नमः पुरुहृताय नमः ॐ पुरुष्टुताय नमः ॐ पुरुजिते नमः ॐ पुरुषेशाय नमः ॐ पुरन्धराय नमः ॐ पुरत्रयविधादिने नमः ॐ पुराणप्रभवे नमः ॐ पुराणवृषभाय नमः ॐ पुरस्थातु बृंहते नमः ॐ पुरज्ञाय नमः ॐ पुरेशाय नमः ॐ पुराणलिङ्गाय नमः ॐ पुरुषलिङ्गाय नमः ॐ पुरक्षेत्रे नमः ॐ पुरान्तकाय नमः ॐ पूरुषश्रेष्ठाय नमः ॐ पुरत्रयारये नमः ॐ पुरारये नमः ॐ पुरत्रय नमः ॐ पुरत्रय नमः पुरन्दरनुधाङ्ग्रये नमः ॐ पुरप्रधाय नमः ॐ पुरन्दरभिमानगाय नमः ॐ पुरहराय नमः ॐ पुरवैरिणे नमः ॐ पुरक्षिधे नमः ॐ पुरस्तादिमहद्दिव्यपञ्चब्रह्ममुखान्विधाय नमः ॐ पुरुणाम्ने नमः ॐ पूरुरूपाय नमः ॐ पुरुषोत्तमरूपाय नमः पूर्णरूपाय नमः ॐ पूर्णानन्दाय नमः ॐ पूरयित्रे नमः ॐ पूर्वजाय नमः ॐ पूर्तमूर्तये नमः ॐ पूर्णाय नमः ॐ पूर्वाय नमः ॐ पल्लविने नमः ॐ प्रलम्बभोगीन्द्रलुलुन्तकण्ठाय नमः ॐ पालनतत्पराय नमः त्क्रन्तते नमः ॐ पालाधिपतये नमः ॐ पुलस्तये नमः ॐ पुलस्त्याय नमः ॐ पुलय नमः ॐ पवनवेगाय नमः ॐ पवनरूपिणे नमः ॐ पवनाशनूषणाय नमः ॐ पवित्राय नमः ॐ पवित्रदेहाय नमः ॐ पवित्रपाणये नमः ॐ प्रवराय नमः ॐ प्रवृत्तये नमः ॐ प्रवीणा विविधूतपरिष्कृताय नमः ॐ प्रवालशोणाधराय नमः ॐ प्रवाहाय नमः ॐ प्रवाह्याय नमः ॐ प्लवनाय नमः ॐ पावकाय नमः पावकाकृतये नमः ॐ पावनाय नमः पावाय नमः ॐ प्रावृढाकाराय नमः ॐ प्रृटकालप्रवर्तकाय नमः ॐ प्रावृट्कृते नमः ॐ प्रावृण्मयाय नमः ॐ प्रृड्विनाशकाय नमः ॐ प्रांशवे नमः ॐ पशुनामकसकलादिभेदन्धत्रयात्मने नमः पशुपतये नमः ॐ पशुपहाररसिकाय नमः ॐ पशुमन्त्रौषधाय नमः ॐ पश्चिमाय नमः ॐ पशुघ्नाय नमः ॐ पशुपासनाशिने नमः ॐ पशुस्थाय नमः ॐ पासाय नमः ॐ पासहराय नमः ॐ पाशनामकषकलादिक्षिद्यन्तब्रह्मात्मने नमः ॐ पासहस्ताय नमः ॐ पाशिने नमः ॐ पाशमूषनाय नमः पाशाङ्गुषाभयवरप्रदशूलपाण्डये नमः ॐ पाशत्रिशूलकट्भाङ्गगुरङ्गतराय नमः ॐ प्रशस्ताय नमः ॐ प्रशस्तचारुविग्रहाय नमः ॐ प्रशान्ताय नमः ॐ प्रशान्तात्मने नमः ॐ प्रशान्तबुद्धये नमः ॐ प्रशांशुज्योतिषे नमः पिशिताय नमः ॐ पिशङ्घाय नमः ॐ पिशिताशाय नमः ॐ पिशानुचारवृत्ताय नमः ॐ पश्यल्ललाटाय नमः ॐ पशुपाशविमोचदाय नमः ॐ पश्यतोहराय नमः ॐ पशुपालकाय नमः ॐ प्रशान्ताय नमः ॐ प्रशंसाय नमः ॐ प्रशंसनीयाय नमः ॐ प्रशंसाविशाय नमः ॐ प्रशंसापात्राय नमः ॐ प्रशस्तगुणसिन्धवे नमः ॐ प्रशस्तयशसे नमः ॐ प्रशान्तमूर्तये नमः ॐ प्रशासितभुवनाय नमः ॐ प्रशासितकन्दर्पाय नमः ॐ प्रशान्तमुनिगणस्तुताय नमः ॐ प्रश्ा ओम प्रशांत प्रशातगर्भाय नम प्रसृताय नमः ॐ प्रश्रितप्रियाय नमः ॐ प्रश्रितजनरक्षकाय नमः ॐ प्रश्रुताभीष्टकराय नमः ॐ प्रसितमोषकाय नमः ॐ प्रसिकराय नमः ॐ प्रसिकराय नमः ॐ प्रसिनिवारकाय नमः ॐ पाशलीलारताय नमः पासहस्ताय नमः ॐ पाशायुतनिषेविताय नमः ॐ पाशकप्रियाय नमः ॐ पाशिने नमः ॐसुभागवे नमः ॐ प्रांशुमूर्तये नमः ॐ प्रासितगरलाय नमः ॐ प्रासितभुवनाय नमः ॐ प्रासकविहारनिरताय नमः ॐ प्रासितश्रवणप्रियाय नमः ॐ प्रासिदमुदितान्तरङ्गाय नमः ॐ पाश्वाभत्तजन्भीतिहते नमः ॐ पाश्चात्यपूजिताय नमः ॐ पाश्चात्यवदनां चिदाय नमः ॐ पाश्चात्यवरदाय नमः ॐ पाशुपत्यव्रधधराय नमः ॐ पिशाचगणसेविताय नमः ॐ पिशाशिकगणेशाय नमः ॐ पिशुनाय नमः ॐ पिशुनान्तकाय नमः ॐ पिशिताशनवरदाय नमः ॐ पिशिताशनेन्द्रपूजिताय नमः ॐ पिशिताशहृते नमः ॐ पिशतभुगदण्डानपण्डिताय नमः ॐ पिशङ्गलोचनाय नमः ॐ पिशङ्गजटाजूटाय नमः ॐ पिशितामोदिधाम्गाय नमः ॐ पिशितशूर्णोत्सवप्रियाय नमः ॐ पिशितवासनावासिताय नमः ॐ पिशूना ितचन्दनसर्चिदाङ्गाय नमः ॐ पिशुनगन्धप्रियाय नमः ॐ पिशुनपङ्काभिषिक्ताय नमः ॐ पुंश्चली दूराय नमः पुंश्चली कृतमुनिभार्याय नमः ॐ पुंश्चली दोषनिर्मुक्तमुन्यं घनाय नमः ॐ पुंश्चली प्राणनादाय नमः ॐ पेशलाय नमः ॐ पेशल्लङ्गाय नमः ॐ पेशलगुणाय नमः ॐ पेशीपिहिदगङ्गाय नमः ॐ पेशीकोशपोषकाय नमः ॐ पेशीकोशगर्भाय नमः ॐ पेशिप्रियाय नमः ॐ पेशीकोशीभूतभुवनाय नमः ॐ पाषाणभेदकायुधाय नमः ॐ पाषाणगौरिकवर्णाय नमः ॐ पाषाणगर्भगदोषहीनरत्नकुण्डलाय नमः ॐ पाषाण्डजनदूराय नमः ॐ पाषाण्डि मदहराय नमः ॐ पाषाण कडिनोरस्काय नमः ॐ पाषाणधलनक्षमवज्रगस्ताय नमः ॐ पार्ष्णि प्रियाय नमः ॐ पार्ष्णि गोपीलसिताय नमः ॐ पिष्ठादधूलीधूसराय नमः ॐ पिष्ठातशूर्णोत्सवप्रियाय नमः ॐ पिष्टभिषिताशनाय नमः ॐ पिष्टा नमः पुष्टभक्तजनाय नमः ॐ पुष्टिकराय नमः ॐ पुष्पकप्रियराजराजसखाय नमः ॐ पुष्पमञ्जरीमण्डिताय नमः ॐ पुष्पवातिकाविहारकुतुकिने नमः ॐ पुष्परागमणिमकुटशोभिताय नमः ॐ पुष्परागपूर्णकुण्डलाय नमः ॐ पुष्पपुच्छी प्रीतिपूर्णाय नमः ॐ पुष्पपुच्छी पूजिताय नमः ॐ पुष्पपुच्छी प्रियंकराय नमः ॐ पुष्पुटकमलार्चिताय नमः ॐ पुष्पाञ्जलिपूजिताय नमः ॐ पुष्पमालिका विराजमानाय नमः ॐ पुष् धूलिधूसरचरणाय नमः ॐ पुष्कराक्षाय नमः ॐ पुष्कराम्बराय नमः ॐ ॐ पुष्कलाय नमः ॐ पुष्कलगुणापिरामाय नमः ॐ पुष्करिणि प्रियाय नमः ॐ पुष्करिणि नमः ॐ पुष्करिणि तीरवासिने नमः ॐ पुष्करक्षेत्रपालाय नमः ॐ पुष्करेशाय नमः ॐ पुष्पकेतुहराय नमः ॐ पुष्पकेतुप्रियाय नमः ॐ पुष्पधन्ताख्यगन्धर्ववरदाय नमः पुष्पदन्तपूजिताय नमः ॐ पुष्पेषु प्राणहराय नमः ॐ पुष्प भाणपुरन्धरी पूजिताय नमः ॐ पुष्पसुरकामिनी सेविदाय नमः ॐ पुष्पेषु पत्नीवरधाय नमः ॐ पुष्परधाधिरूढाय नमः ॐ पुष्परधारोकौतुकिने नमः ॐ पुष्पगर्वमधराय नमः ॐ पुष्पकरवर्मशोभकराय नमः ॐ पुष्यमीप्रियशेखराय नमः पुष्पकादिमप्रियाय नमः ॐ पुष्परसाभिक्षिक् य नमः ॐ पुष्परशाभिषेकप्रियाय नमः ॐ पूष्णे नमः ॐ पूषमण्डलवासिने नमः ॐ पूषनेत्राय नमः ॐ पूषपूज्याय नमः ॐ प्रेयक्षपोषकाय नमः ॐ प्रेक्षयवृन्दस्तुताय नमः ॐ प्रेक्षाप्रसूरपरिचारिताय नमः ॐ प्रेष्ठजनपालकाय नमः य नमः ॐ पौष्टिकप्रियाय नमः ॐ पौष्टिकामोदशालिने नमः ॐ पौष्टिकतुष्टचित्ताय नमः ॐ प्रोक्षिकभर्तृकाप्रियप्रदाय नमः ॐ प्रक्षिकनायिकासंस्तुताय नमः ॐ पौष्पकप्रीतिभुक्ताय नमः ॐ पौष्पकानुरक्ताय नमः ॐ पौषप्रियाय नमः ॐ पौषोद्युक्ताय नमः ॐ पौषीचन्द्रिकदावलाय नमः ॐ पुष्कराय नमः ॐ पुष्करस्वजे नमः ॐ पुष्करनालजन्मने नमः ॐ पुष्टाय नमः ॐ पुष्टिवर्धनाय नमः ॐ पुष्टिसंवर्धनाय नमः ॐ पुष्टानां पतये नमः ॐ पुष्टेशाय नमः ॐ पुष्टिप्रदाय नमः ॐ पुष्पवस्तुस्वरूपाय नमः ॐ पुष्पवदग्निनयनाय नमः ॐ पुष्पमालिने नमः ॐ पुष्पचापविभञ्चकाय नमः ॐ पुष्पदन्तान्तकाय नमः ॐ पुष्पदन्तविनाशाय नमः ॐ पुष्पदन्तभिते नमः ॐ पुष्पदन्तहृते नमः ॐ पृषधस्वाय नमः ॐ प्रसन्नेश्वराय नमः ॐ प्रसादशीलाय नमः ॐ प्रसादसुमुखाय नमः ॐ प्रसादिनिसाचराय नमः ॐ प्रसादगोचरीकृतसुरसन्ध्याय नमः ॐ प्रसवित्रे नमः ॐ प्रसश्रवणाचलवासाय नमः ॐ प्रश्रवणाप्रियाय नमः ॐ प्रसरिणीप्रियजटालताय नमः ॐ प्रसृदृतविषभकाय नमः ॐ प्रसृदीकृतसागराय नमः ॐ प्रसन्नहृदयाय नमः ॐ प्रसंरुधीकृतभक्तापराधाय नमः ॐ प्रसादितनिजशरीराय नमः ॐ प्रसारितवस्यलोकाय नमः ॐ प्रसितजनसंकराय नमः ॐ प्रस्थितक्रोधाय नमः ॐ प्रस्तुधाकाराय नमः ॐ प्रसूष्यन्ति बालकाय नमः ॐ प्रसूतिकराय नमः ॐ प्रसूतिजनकाय ॐ प्रसूतरक्षणतत्पराय नमः ॐ प्रसूतजनयितृरूपाय नमः ॐ प्रस्तोतृगीताय नमः ॐ पु कालं कृतहस्ताय नमः ॐ प्रसृकीर्तये नमः ॐ प्रसरप्रदाय नमः ॐ प्रसरसुराय नमः ॐ प्रसरनिरताय नमः ॐ प्रसरवृषभवाहनाय नमः ॐ प्रसरसायिने नमः प्रस्तरसाय्याशायिने नमः ॐ प्रस्तरहारालङ्कृताय नमः ॐ प्रस्तराशीलाय नमः ॐ प्रस्तारकृते नमः ॐ प्रस्तारप्रवर्तकाय नमः ॐ प्रसारशीलाय नमः ॐ प्रसारिणे नमः ॐ प्रसारिमण्डलस्थाय नमः ॐ प्रस्तुताङ्कुराय नमः ॐ प्रसवजनकाय नमः ॐ प्रसवभूषिताय नमः ॐ प्रसेवकाय नमः ॐ प्रसुरूपाय नमः ॐ प्रास्तानिकस्तुतिस्तुताय नमः ॐ प्रसादवासनिरताय नमः ॐ प्रसाद्यायुधमण्डिताय नमः ॐ प्रसास्तरिभुमण्डलाय नमः ॐ पांशुचन्दनाय नमः ॐ पांशुदिग्धाय नमः ॐ पांशुसन्धयभूषिताय नमः ओम् प्रास्याय नमः ॐ पांशु चामरपांगाय नमः ॐ पांशु नमः ॐ पांशु नमः ॐ पांशुलाय नमः ॐ पांशुला मदभञ्जनाय नमः ॐ पांशुलाभूधाय नमः ॐ पांशुलावरदाय नमः ॐ पांशुलाभारहराय नमः ॐ पांशुलाचारनिर्धारकाय नमः ंशुलागमहेतुवदनाय नमः ॐ पांशुधूषराय नमः ॐ पांशुकाशिनप्रियाय नमः ॐ पुस्तकालं कृतशोभनाय नमः ॐ पुस्तकाभयवरदहस्ताय नमः ॐ पुंसवनप्रियाय नमः ॐ पुंस्कोकिलकूजितलोलुभाय नमः ॐ पुं श्रां मोहनरूपाय नमः ॐ पौष्णसमर्चिताय नमः ॐ पौष्णरूपाय नमः ॐ पौस्णाभीष्टध्यायिने नमः ॐ पां नमः ॐ प्रशान्तवदनाय नमः ॐ प्रशान्नाननाय नमः ॐ प्रसन्नास्याय नमः ॐ प्रसादाभिमुखाय नमः ॐ प्रसादाय नमः ॐ प्रसन्नात्मने नमः ॐ प्रसन्नाय नमः ॐ प्रसिद्धाय नमः ॐ प्रसन्नचित्ताय नमः ॐ प्रसवाय नमः ॐ प्रश्रुताय नमः ॐ प्रस्थिताय नमः ॐ पुंसे नमः ॐ प्रस्कन्दनाय नमः ॐ प्रकरणानां वज्राय नमः ॐ प्रगतप्रासिताय नमः ॐ प्रहिताय नमः ॐ प्रकृष्टाय नमः ॐ प्रकृष्टकगणसेविताय नमः प्रहेल्लिकाविदग्धाय नमः ॐ प्रहतवैरिणे नमः ॐ प्रहतरिपुमण्डलाय नमः ॐ प्रकर्षकाय नमः ॐ प्रकरणभूषणाय नमः ॐ प्रकरणरूपिणे नमः ॐ प्रकरणदेवतास्तुताय नमः ॐ प्रहर्त्रे नमः ॐ प्रहर्त्रे नमः ॐ प्रहेतिवन्द्याय नमः ॐ प्रलयानलकृते नमः ॐ प्रलयानलनाशकाय नमः ॐ प्रलयार्णवसंस्थाय नमः ॐ प्रलयोत्पत्तिहेतवे नमः ॐ प्रलयधत्तसुरासुरमानवाय नमः ॐ पक्षणीचन्द्रिकाभाय नमः ॐ पक्षीन्द्रवाहननेध्याय नमः ॐ पक्षीसाय नमः ॐ पक्षीश्वरपूजिताय नमः ॐ प्लक्षद्वीपवासिने नमः ॐ प्लक्षेश्वराय नमः ॐ प्रक्षिप्तपादकाय नमः ॐ प्रोक्षावदग्रेसराय नमः प्रोक्षावत्पूजिताय नमः ॐ प्रोक्षाधत्तभुवनाधिपत्याय नमः ॐ प्रक्षणलब्धदागेन्द्रपूजिताय नमः ॐ प्रेक्षाधाम्ने नमः ॐ प्रक्षीणदोषाय नमः ॐ पक्षाय नमः पक्षमाशार्धमासाय नमः ॐ पक्षमासदिनात्मने नमः ॐ पक्षतारिणे नमः ॐ पक्षरूपाय नमः ॐ पक्षिणे नमः ॐ पक्षीन्द्रवाहनाय नमः ॐ फकारस्य वासुदेवो देवता धनधान्यपशुप्रधाने विनियोग नमः ृङ्काराय नमः ॐ फट्काराय नमः ॐ फटस्त्राजपधन्तुष्टाय नमः ॐ फणीन्द्रकुण्टलाय नमः ॐ फणिनाथाय नमः ॐ फणिपूजिताय नमः ॐ फणिविद्यमयाय नमः ॐ फणीन्दरोत्तुमहिम्ने नमः ॐ फणीन्द्रां गदधारिणे नमः ॐ फणीन्द्रवरधाय नमः ॐ फणिराजुठाय नमः ॐ फणिराजविभूषणाय नमः ॐ फणिपदिवेष्टितशोभिधलिङ्गाय नमः ॐ फणादरेन्द्रधारिणे नमः ॐ फणीन्द्रसंवीततनवे नमः ॐ फणीन्द्रमेकलाय नमः ॐ फणिधामविराजिताय नमः ॐ फनामणिविराजिताय नमः ॐ फेण्याय नमः ॐ भूत्कृताय नमः ॐ श्रें श्रें नमः ॐ श्रें परायणाय नमः ॐ श्रें सब्धपरायणाय नमः व्हाँ व्हाँ व्हाँ ेम् बीजजबसन्तुष्टाय नमः ॐ फलाय नमः ॐ फलदाय नमः ॐ फलज्ञाय नमः ॐ फलङ्गाय नमः ॐ फलरूपिणे नमः ॐ फले भस्मरे गाध्यान्विधाय नमः ॐ फलाक्षिणातज्वलान् लोलिहानमनोभवाय नमः ॐ फलाक्ष फालाक्षिप्रभवप्रभञ्चनसखप्रोत्यस् पुलिञ्चुकचटादुलासङ्गाय नमः ॐ फालचन्द्राय नमः फालेक्षणनलविशोषितपञ्चभाणाय नमः ॐ फालेक्षणाय नमः ॐ फाललोचनजादभावकधत्तमन्मतविग्रहाय ॐ फालनेत्राय नमः ॐ फुल्लपद्मविशालाक्षाय नमः ॐ फं नमः बगारस्य अश्विनौ देवता वाथपित्थादिनाशने विनियोग नमः ीजाय नमः ॐ बीजमध्यस्थिताय नमः ॐ बीजतोषिताय नमः ॐ बीजमुद्रस्वरूपिणे नमः ॐ बीजवाहनाय नमः ॐ बीजेसाय नमः ॐ बीजाधारकरूपाय नमः ॐ बीजाध्यक्षाय नमः ॐ बीजकर्त्रे नमः ॐ बीजतन्त्राय नमः ीजनाशकाय नमः ॐ बीजयन्त्रस्थिताय नमः ॐ बीजदाजाय नमः ॐ बीजहेतवे नमः ीजवर्णस्वरूपाय नमः ॐ बीजधाय नमः ॐ बीजमात्राय नमः ॐ बीजवृद्धिधाय नमः ॐ बीजधराय नमः ॐ बीजासनसमस्तिताङ्गाय नमः ॐ बीजरूपाय नमः ॐ बीजपाराय नमः ॐ बीजसंस्तमरीचये नमः ॐ बीजकोषाय नमः ीजिने नमः ॐ बीजवृक्षस्वरूपिणे नमः ॐ बीजहन्त्रे नमः ॐ बीजक्षेत्राधिपाय नमः ॐ बटभामुखाय नमः ॐ बटवाग्ने नमः ॐ बिडौ जोविदिनैकुण्डनमिताय नमः ाणपूजिताय नमः ॐ बाणभुजारताय नमः ॐ बाणहस्ताय नमः ॐ बाणप्रियाय नमः ॐ बाणीकृदेधेन्द्वग्निनारायण तीक्ष्णवे नमः ॐ भातिहस्ताय नमः ॐ बृन्दारकवरार्चिताय नमः ॐ वृन्दावनकृतालयाय नमः ॐ बिन्दवे नमः ॐ बिन्दुनाधात्मकाय नमः ॐ बन्दनाय नमः ॐ बन्धकर्त्रे नमः ॐ बन्धवर्जिताय नमः न्धवे नमः ॐ भन्ताय नमः ॐ बुद्धये नमः ॐ बुद्धाय नमः ॐ बुद्ध्याय नमः ॐ बुद्धिमद्वराय नमः ॐ बुद्धीन्द्रयात्मने नमः ॐ बुद्धीशाय नमः ॐ बुद्धिप्रेरकाय नमः ॐ बुद्धिदाय नमः ॐ बुद्धिरूपाय नमः ॐ बुद्धिविवर्धनकारणलिङ्गाय नमः ॐ बुधात्मने नमः ॐ भोत्रे नमः ॐ भूत्याय नमः ॐ भोत्रव्याय नमः ॐ भोधिने नमः ॐ भोधित्रे नमः ॐ भोतनाय नमः ॐ बोधरूपिणे नमः ॐ भूत्यरूपाय नमः ॐ ब्लूं नमः ॐ ब्लूं ब्लूं नमः ॐ भं परमशिवाय नमः ॐ बिम्भागममुखाय नमः ॐ भब्रवे नमः ॐ भब्लुषाय नमः ॐ भाप्राशब्दपरायणाय नमः ॐ विप्राणाय नमः ॐ भलाय नमः लशालिने नमः ॐ बलग्ने नमः ॐ बलचारिणे नमः ॐ बलरूपधृते नमः ॐ बलकृते नमः ॐ बलविधे नमः ॐ बलप्रमतनाय नमः ॐ बलाबलसमूहाय नमः ॐ बलवतां वायवे नमः ॐ बलिने नमः भुजे नमः ॐ बलिगतये नमः ॐ बलिवर्धनाय नमः ॐ बलोन्मादिने नमः ॐ बलवते नमः ॐ बलिवीराय नमः ॐ बालाय नमः ॐ बालरूपाय नमः ॐ बालरूपधराय नमः ॐ बालमतये नमः लेश्वराय नमः ॐ बालभावभृते नमः ॐ बालाप्रियाय नमः ॐ बालचन्द्रप्रियाय नमः ॐ बालचन्द्रवतंसाय नमः ॐ बालादित्यलहस्रकोटिशत्रुशाय नमः ॐ बालावर्ण्यकवित्वभूमिसुगधाय नमः ॐ बालार्कमण्डलाकाराय नमः िल्वदलाकाराय नमः ॐ बिल्प्रियाय नमः ॐ बिल्वृक्षसमाश्रयाय नमः ॐ बिल्वाय नमः ॐ बिल्मिने नमः ॐ बिल्वमालाधराय नमः ॐ बैल्वाय नमः ॐ बहिर्मुखाय नमः ॐ बहिर्मुखमहाधर्भदमनाय नमः ॐ बहुश्रुताय नमः ॐ बहुप्रधाय नमः ॐ बहुमयाय नमः ॐ बहुरूपाय नमः ॐ बहुभूताय नमः ॐ बहुधराय नमः ॐ बहुरूपभद्रते नमः ॐ बहुरस्मये नमः ॐ बहुप्रसादाय नमः ॐ बहुतानिन्दताय नमः ॐ बहुमालाय नमः ॐ बहुलाय नमः ॐ बहुकर्कसाय नमः हुरूपिणे नमः ॐ बहुवितपरितोषभास्फुरत्पुरपुलकाङ्कितचारुभोकभूमये नमः हुनेत्राय नमः ॐ बाहुभ्यां नमः ॐ बृहस्पतये नमः ॐ बृहस्पत्यवमध्याप्तशक्रभीहारिणे नमः ॐ बृहद्गर्भाय नमः ॐ बृहज्ज्योतिषे नमः ॐ बृहते नमः ॐ बृहत् नमः ॐ बृहत्कीर्तये नमः ॐ ब्रह्मात्मकपदाय नमः ॐ ब्रह्मात्मकपश्चिमवदनाय नमः ॐ ब्रह्मरूपिणे नमः ॐ ब्रह्मचारिणे नमः ॐ ब्रह्मधारकाय नमः ॐ ब्रह्मात्मने नमः ॐ ब्रह्मसदनाय नमः ॐ ब्रह्माण्डवेदनाय नमः ॐ ब्रह्मज्ञानिने नमः ्रह्मदृहे नमः ॐ ब्रह्मचक्राय नमः ॐ ब्रह्मगर्भाय नमः ॐ ब्रह्मणे नमः ॐ ब्रह्मण्याय नमः ॐ ब्रह्मदण्डविनिर्मात्रे नमः ॐ ब्रह्म कृते नमः ॐ ब्रह्माङ्गहृते नमः ॐ ब्रह्मविदे नमः ॐ ब्रह्मलोकाय नमः ॐ ब्रह्मवर्चसाय नमः ॐ ब्रह्माण्डनायकाय नमः ॐ ब्रह्मज्योतिषे नमः ॐ ब्रह्मानन्दात्मने नमः ॐ ब्रह्मचिरश्चेत्रे नमः ॐ ब्रह्ममयाय नमः ॐ ब्रह्मयोनये नमः ॐ ब्रह्मचक्रभ्रमाय नमः ॐ ब्रह्मानन्दाय नमः ॐ ब्रह्माण्डरूपाय नमः ्रह्मरूपाय नमः ॐ ब्रह्माण्डरूपिणे नमः ॐ ब्रह्माधिपतये नमः ॐ ब्रह्मलिङ्गाय नमः ॐ ब्रह्मादिप्रभवे नमः ॐ ब्रह्माविद्याधिपतये नमः ॐ ब्रह्माविद्यापधायिने नमः ॐ ब्रह्मण्यदेवाय नमः ॐ ब्रह्मचारिणामसरण्याय नमः ॐ ब्रह्मणोधिपतये नमः ॐ ब्राह्मणप्रियाय नमः ॐ ब्रह्मात्मैक्यस्वरूपिणे नमः ॐ ब्रह्मतनवे नमः ॐ ब्रह्मविधां ब्रह्मणे नमः ॐ ब्रह्मशिरोहन्त्रे नमः ॐ ब्रह्मिष्ठाय नमः ॐ ब्रह्म नमः ॐ ब्रह्मस्वरूपाय नमः ॐ ब्रह्मपावनतत्पराय नमः ॐ ब्रह्मबीजाय नमः ॐ ब्रह्मनारायणे ज्ञानात्यगिलाकृतये नमः ॐ ब्रह्ममुरारिसुरार्चितलिङ्गाय नमः ॐ ब्रह्मरुद्रात्यवताराय नमः ॐ ब्रह्माणां गणपतये नमः ब्रह्मादिभिर्वन्द्यमानाय नमः ॐ ब्रह्मादिभिर्वन्द्यमानपदाम्बुजाय नमः ॐ ब्रह्मवादिनां ब्रह्मणे नमः ॐ ब्रह्मादिबिरनुध्येय बिरनुद्येयाय नमः ॐ ब्रह्मादिबिरनुध्येयाय नमः ॐ ब्रह्मणस्पतये नमः ॐ ब्रह्मयोनये नमः ॐ ब्रह्मवेद्याय नमः ॐ ब्रह्मवर्जिताय नमः ॐ ब्रह्माण्डसाक्षिणे नमः ॐ ब्रह्मतत्त्वाय नमः ॐ ब्रह्मास्त्रार्थस्वरूपाय नमः ॐ ब्रह्मदण्डस्वरूपिणे नमः ॐ ब्रह्मस्थाय नमः ॐ ब्रह्मविद्युद्येयाय नमः ॐ ब्रह्मणि स्थिताय नमः ॐ ब्रह्मवन्दनीयाय नमः ॐ ब्रह्माण्डत्वेन विस्तृताय नमः ॐ ब्राह्मणाय नमः ॐ ब्राह्मणप्रियाय नमः ॐ ब्राह्मणबालकाय नमः ॐ ब्राह्मणविधे नमः ॐ ब्राह्मणानुगताय नमः ॐ भगारस्य शुक्रो देवताभूतप्रेतपयापनयने विनियोग नमः ॐ भगाररूपाय नमः ॐ भक्तवत्सलाय नमः ॐ भक्त हृद्दनजभृङ्गाय नमः ॐ भक्तपालाय नमः ॐ भक्तशकोरचन्द्राय नमः भक्तसेव्याय नमः ॐ भक्तजीवनाय नमः ॐ भक्तमन्दाराय नमः ॐ भक्तहृत्पद्मनिलयाय नमः ॐ भक्तभयश्चेदकारणाय नमः ॐ भक्तविशेषवशीकराय नमः ॐ भक्तकल्याणदाय नमः ॐ भक्तवरदाय नमः भक्तगम्याय नमः ॐ भक्तकामदुगे नमः ॐ भक्तप्रातिसर्वार्थकामधेनवे नमः ॐ भक्तकल्पतरवे नमः ॐ भक्तकृपापराय नमः ॐ भक्तमानसमन्दिराय नमः ॐ भक्तप्रियाय नमः ॐ भक्तचि क्तपहारकाय नमः ॐ भक्तवस्याय नमः ॐ भक्तरक्षकवामाक्षि कटाक्षाय नमः ॐ भक्तपोषकाय नमः भक्तचैतन्यनिलयाय नमः ॐ भक्तानुग्रहमूर्तये नमः ॐ भक्तारविन्दहेलये नमः ॐ भक्तानुग्रहविग्रहाय नमः ॐ भक्ताभिमतप्रदाय नमः ॐ भक्तानुरक्ताय नमः ॐ भक्तामिष्टकामफलप्रदाय नमः ॐ भक्तानुग्रहकातराय नमः ॐ भक्ता भयप्रदाय नमः ॐ भक्तानुग्रहकारकाय नमः ॐ भक्तानां भयभञ्जनाय नमः ॐ भक्तानां सुलभाय नमः ॐ भक्तानां भुक्तिमुक्तिप्रदाय नमः ॐ भक्तार्तिभञ्जनपराय नमः ॐ भक्तानां शर्मदाय नमः ॐ भक्तानुकम्पिने नमः ॐ भक्तानां भीतिपङ्गरताय नमः ॐ भक्तार्तिभञ्जनाय नमः ॐ भक्ता भीप्सितदायकाय नमः ॐ भक्तानामिष्टधायिने नमः ॐ भक्तानामार्तिनाशाय नमः ॐ भक्तिताय नमः ॐ भक्तिमुक्तिकारणाय नमः ॐ भक्तिमते नमः ॐ भक्तिप्रदाय नमः ॐ भक्तिनायकाय नमहान् ॐ भक्तिगम्याय नमः ॐ भक्तेष्टदात्रय नमः ॐ भक्ते चोपात्तविग्रहाय नमः ॐ भुक्तिमुक्तिफलप्रदाय नमः ॐ भुक्तिमुक्तिदायकाय नमः ॐ भवाकृते नमः ॐ भोक्त्रे नमः ॐ भोक्तरूपाय नमः ॐ भगवते नमः ॐ भगपूजापरायणाय नमः ॐ भगनेत्रभिदे नमः ॐ भगहारिणे नमः ॐ भगपतये नमः ॐ भवनेत्रान्तकाय नमः ॐ भगप्रमतनाय नमः ॐ भगनेत्रविधारणाय नमः ॐ भगनाय नमः ॐ भगनेत्रहारिणे नमः ॐ भगधारिणे नमः ॐ भगात्मने नमः ॐ भगाय नमः ॐ भगाक्षहराय नमः ॐ भगाक्षसंस्फोटवदक्षकर्मणे नमः ॐ बकाक्षज्ञे नमः ॐ भगनेत्रहन्त्रे नमः ॐ भगीरथसमर्चिताय नमः ॐ भाग्याय नमः ॐ भाग्यप्रदाय नमः भाग्यारोग्यप्रदायकाय नमः ॐ भाग्यधात्रे नमः ॐ भागधराय नमः ॐ भागिने नमः ॐ भागीरथिप्रियाय नमः ॐ भूगर्भाय नमः ॐ भोगिशयनाय नमः ॐ भोगिभूषाय नमः ॐ भोगदाय नमः ॐ भोगिने नमः ॐ भोगनायकाय नमः ॐ भोगभुजे नमहान् ॐ भोग्याय नमः ॐ भोगिभूषणभूषिताय नमहान् ॐ भोगमार्गप्रदाय नमः ॐ भोगमोक्षप्रदाय नमहान् भोगिकुण्डलमण्डिताय नमः ॐ भोगप्रतावलयवते नमः ॐ भंकुराय नमः ॐ भृं गिरिटये नमः ॐ भृं गिरीटसेव्यपदाम्बुजाय नमः ॐ भूचराय नमः ॐ जमानाय नमः ॐ जराजमानाय नमः ॐ प्रजिष्णवे नमः ॐ बुजङ्गकुण्डलिने नमः ॐ भुजगेन्द्रलसत्कण्ठाय नमः ओम ओं भुजगेन्द्रलसत्खंडा नम ॐ भुजाङ्गभरणप्रियाय नमः ॐबुजङ्गविलसत्कर्णाय नमः ॐजङ्गवलयावृताय नमः ॐबुजङ्गराजविलसत्कङ्गणाय नमः ॐबुजङ्गहारवलयाय नमः ॐबुजङ्गहाराय नमः ॐबुजङ्गवल्लीवलयसरङ्गाजूटाय नमः ॐ बुजङ्गविभूषणाय नमः ॐबुजगादिपकङ्गणाय नमः ॐ बुजगलोकपतये नमः ॐ भुजगहारदान्विताय नमः ॐ भुजगभूषणभूषिताय नमः ॐ भुजङ्गराजकुण्डलाय नमः ॐ भुजङ्गराजमालायानि भक्तजडाजूटकाय नमः ॐ भुजङ्गशिशुवित्रस्तकुरङ्गशिशुमण्डिताय नमः ॐ भुजभ्रान्तदिगन्धाय नमः ओम्भोजनाय नमः ओम् भोजयित्रे नमः ओम्भोज्याय नमः ॐ भोजसन्निभाय नमः ॐ बोज्यमानविभद्रुमाय नमः ॐ भट्टराय नमः ॐ भट्टरकाय नमः ॐ भण्डासुरविध्वंसनोत्सुकाय नमः ॐ बिण्डिभालभूंशुडिप्रते नमः ॐ भ्रूणहत्यापादकवासनाय नमः ॐ भ्रा त्रे नमः ॐ भ्रान्ताय नमः ॐ भ्रान्तिरहिताय नमः ॐ भ्रान्तिनाशनाय नमः ॐ भीतिनाशनाय नमः ॐ भीतव्रातपरित्रात्रे नमः ॐ भीता भीतभयापहाय नमः ॐ भीतिपरसुधनाय नमः ॐ भूतसंसारदुर्गाय नमः ॐ भूतसंस्थनायकाय नमः ॐ भूतवेतालसंधाट्याय नमः ॐ भूतवेतालजुष्टाय नमः ॐ भूतभर्त्रे नमः ूतानां पतये नमः ॐ भूतिभूषाय नमः ॐ भूतभव्यभवते नमः ॐ भूतिभासितोरसे नमः ॐ भूतिकर्पूरसंयुक्तदिव्याङ्गाय नमः ॐ भूदेशाय नमःन् ॐ भूतसन्धसमावृताय नमः ॐ भूतये नमः ॐ भूतिमतां श्रेष्ठाय नमः ॐ भूतिनायकाय नमः ॐ भूतेश्वराय नमः ॐ भूतयोनये नमः ॐ भूतस्सन्धार्चिताय नमः ॐ भूतात्यक्षाय नमः ॐ भूतपतये नमः ॐ भूताय नमः ॐ भूतनिवारणाय नमः ॐ भूतवाहनशारदये नमः ॐ भूतचारिणे नमः ॐ भूतभावनाय नमः ॐ भूतभूषणाय नमः ॐ भूदिदाय नमः ॐ भूतिदायकाय नमः ॐ भूदिकृते नमः ॐ भूतिप्रियाय नमः ॐ भूतिभूषिताय नमः ॐ भूतिभूषणभूषिताय नमः ॐ भूतिलिङ्गाय नमः ॐ भूतिवाहनाय नमः ॐ भूतिभूतये नमः ॐ भूतभव्यभवाश्रयाय नमः ॐ भूतग्रामशरीरिणे नमः ॐ भूतभव्यभविष्याय नमः ूतभव्येषाय नमः ॐ भूतभव्यभवोद्भवाय नमः ॐ भूतपरिव्रताय नमः ॐ भूतवेतालसेविताय नमः ॐ भूतभृते नमः ॐ भूतकृते नमः ॐ भूतमित्राय नमः ूतव्रताय नमः ॐ भूतगणसेव्याय नमः ॐ भूतगाय नमः ॐ भूतग्ने नमः ॐ भूतमूर्तये नमः ॐ भूतभव्यभवन्नाथाय नमः ॐ भूतवाहनाय नमः ॐ भूतकायस्ताय नमः ॐ भूतपावनाय नमः ॐ भूतनिषेविताय नमः ॐ भूतसमस्ताधिनाथाय नमः ॐ भूतलयाय नमः ॐ भूतवाससे नमः ॐ भूेपनभूषिताय नमः ॐ भूतानां प्रभवे नमः ॐ भूतात्मने नमः ॐ भूतानां पतये नमः ॐ भूताधिपतये नमः ॐ भूतानां व्या ूतातय नमः ॐ भूतानाम् शुभताय नमः ॐ भूता व्रातपरित्रात्रे नमः ॐ भूताभीतभयापहाराय नमः ॐ भूतनाशनाय नमः ॐ भद्रप्रीडकृतावासाय नमः ॐ भद्रकालीप्रियंकराय नमः ॐ भद्रदाय नमः ॐ भद्रनाथप्रियाय नमः ॐ भद्रवाहनाय नमः ॐ भद्राय नमः भद्राकराय नमः ॐ बुधारमूर्तिपरिमृगयपदाम्बुजाय नमः ॐ भेदत्रय रहिताय नमः ॐ भेदवते नमः ॐ भूतारायुधाय नमः ॐ भूतरस्थिताय नमः नमः ॐ भानुभूषाय नमः ॐ भानुरूपाय नमः ॐ भानुसोमाग्निहेतवे नमः ॐ भानुसोमाग्निनेत्राय नमः ॐ भानुकोटिप्रतीकाशाय नमः ॐ भानुप्रियाय नमः ॐ भानुधर्पहराय नमः ॐ भ तेजो वाय्वाकाशतुरीयाय नमः ॐ भूपतये नमः ॐ भूपदित्वप्रदाय नमः ॐ भूपाय नमः ॐ भ्राम्बीजवसन्तुष्टाय नमः ॐ भीसप्तपरायणाय नमः ॐ भूपारोत्तारणाय नमः ॐ बूं भारवप्रियाय नमः ॐ भूपृताश्रयाय नमः ॐ बीभत्साय नमः ॐ ब्रह्मराम्भाप्रभूजिताय नमः ओम ब्रह्मराम भानायकाय नमः ओम ब्रमरी युक्ताय नमः ओम ब्रमरिणे नमः ओम बामासंकराय नमः ओम भमृगयवे नमः ीमाय नमः ॐ भीमपराक्रमाय नमः ॐ भीम गर्भाय नमः ॐ भीम सङ्गमलोलुपाय नमः ॐ भीमभूषाय नमः ॐ भीमसङ्घ्रामलोलुपाय नमः ॐ भीमचन्द्रपतये नमः ॐ भीमवेशाय नमः ॐ भीमनिस्वनाय नमः ॐ भीमवर्मणे नमः